चतुर्दशाधिकशततमोऽध्यायः वैशम्पायनो वाच ततः पुत्रशतम् जज्ञे गान्धार्याम् जनमेजय धृतराष्ट्रस्य वैश्यायाम् एकश्चापि शतात्परः पाण्डोः कुन्त्याञ्चमात्र्याञ्च पुत्राः पञ्चमहारथाः देवेभ्यः समपद्यन्त सन्तानाय वै जनमेजय उवाच कथम् पुत्रशतम् यज्ञे गान्धार्याम् द्विजसत्तम कियता तेषामायुश्च किम् परम् कथञ्चैकस्य वैश्यायाम् धृतराष्ट्र सुतोऽभवत् कथञ्च सदृशीम् भार्याम् कान्धारीम् धर्मचारिणीम् आनुकूल्ये वर्तमानाम् धृतराष्ट्रोऽभ्यवर्तत कथञ्च शप्तस्य सतः पाण्डोस्तेन महात्मना समुत्पन्ना दैवतेभ्यः पुत्राः पञ्चमहारथाः एतद् यथा न्यायम् विस्तरेण तपोधन कथय स्वनमे कथ्यमानेषु बन्धुषु वैशम्पायन उवाच क्षिश्रमाभि परिक्लानम् द्वैपायनमुपस्थितम् तोषयामास गान्धारी व्यासस्तस्यैवरम् ददौ सावव्रे सदृशम् भर्तु पुत्राणाम् शतमात्मनः ततः कालेन सा गर्भम् धृतराष्ट्रादथाग्रहीत् संवत्सरद्वयम् तन्तु गान्धारी गर्भमाहितम् ततस्ताम् दुःखमाविशत् श्रुत्वा कुन्ती सुतम् जातम् बालाकसमतेजसम् उदरस्यात्मनः स्थैर्यमुपलभ्यान्व चिन्तयत् यत्नेन महता ततः सोदरम् घातयामास गांधारी दुःखमूर्च्छिता ततो जज्ञे मां स पेशी लोहाष्ठीलेव संहता द्विवर्ष सम्भृता कुक्षौ तामुत्सृष्टुम् प्रचक्रमे अथद्वैपायनो द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ताम् स मां समयीम् पेशीम् ददर्श ते चिकीर्षितम् सा चात् मनोमतम् सत्यम् ज्येष्ठम् कुन्ती सुतम् जातम् श्रुत्वा रवि समप्रभम् दुःखेन परमेणेदमुदरम् घातितम् मया शतञ्च किल पुत्राणाम् वितीर्णम् मे त्वया पुरा इयञ्चमेमाम् सपेशी जाता पुत्रशताय वै व्यास उवाच नैतज्जात्वन्यथा भवेत् वितथम् नोक्त पूर्वम् मे स्वैरेष्वपि क्षिप्रमेव विधीयताम् सुगुप्तेषु च देशेषु रक्षा चैव शीताभिरद्भिरष्ठीलाम् इमाञ्च परिचेचय वैशम्पाय न उवाच सासिच्यमाना त्वष्ठीला बभूवशतधा तदा अङ्गुष्ठ पर्व मात्राणाम् गर्भाणाम् पृथगेव तु एकाधिक विशाम्पते मांस पेश्यास्तदा राजन् क्रमश तदा स्वनुगुप्तेषु देशेषु रक्षाम् वै ततः शशंस चैव भगवान् कालेनैतावता पुनः उद्घाटनीयान्येतानि कुण्डानीति च सौबलीम् इत्युक्त्वा भगवान् व्यासस्तथा प्रतिनिधाय च जगाम तपसे धीमान् हिमवन्तम् शिलोच्चयम् जज्ञे क्रमेण चैतेन तेषाम् दुर्योधनोन्नृपः जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः तदाख्यातम् भीष्माय विद्राय धीमते यस्मिन्नहनि जज्ञे दुर्योधनस्तदा तस्मिन्नेव महाबाहुर्जज्ञे भीमोऽपि वीर्यवान् स जातमात्र एवाथ धृतराष्ट्र सुतोऽनृप रासभारावसदृशम् रुरावचननाद च तम् खराः प्रत्यभाषन्त गृध्रगोमा युवायसाः वाताश्च प्रवश्चापि दिग्दाहश्चाभवत्तदा ततस्तु भीतवत् विप्रान् भीष्मम् विदुरमेव च अन्यांश्च सुहृदो राजन् कुरून् युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः प्राप्तः स्वगुणतो राज्यम् न तस्मिन् वाच्यमस्तिनः अयम् त्वनन्तरस्तस्मादपि राजा भविष्यति एतद्विबूत् यदत्र भविता ध्रुवम् वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत श्रव्यादाः प्राणदन् निमित्तानि तानि घोराणि सर्वशः ते ब्रुवन् ब्राह्मणा राजन् विदुरश्च महामतिः यथेमानि निमित्तानि घोराणि मनुजाधिप उत्थितानि सुतो जाते ज्येष्ठे ते पुरुषर्षभ व्यक्तम् कुलान्तकरणो भवितैषत् सुतस्तव तस्य शान्तिः परित्यागे गुप्तावपनयो महान। शतमेको नमप्यस्तु पुत्राणाम् ते महीपते त्यजैनमेकम् शान्तिम् चेत् कुलस्येच्छसि भारत एकेन कुर्वै क्षेमम् कुलस्य जगतस्तथा त्यजेदेकम् कुलस्यार्थे ग्रामस्यार्थे कुलम् त्यजेत् ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेत् सतथा विदुणस्तोत्तम न चकार यथाजा नचकार स्नेह राजा पुत्रस्नेह पुत्र शतम पूर्ण धृत राष्ट्र पार्थिव मासण सं कन्या चैका शता गाधारिया क्लिश्यमयां उदरण विवर्धता वैश्या पर्यचत किल तस्वत्स राजृत राष्ट्र महायशा यज्ञे धीमांस्ततस्तस्याम् ययुत्सुः कर्णोऽृप एवम् पुत्रशतम् यज्ञे धृतराष्ट्रस्य धीमतः महारथानाम् वीराणाम् कन्याचैकाशताधिका चैका शताधिका युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कान्धारी पुत्रोत्पत्तौ चतुर्दशाधिकशततमोऽध्यायः